नारदपुराणं पूर्वार्थम् अध्यायं फिफ्टि फैव् सनन्दन उवाच मूर्धास्य बाहुहृक्रोडान्तर्भस्तिव्यञ्च सोनकः जानु जानुजङ्घाङ्क्रियुगलं कालाङ्गानिक्रियादयः भौमा स्फुजि बुधेन्दुश्चरविसौम्यसिधापुजः गुरवो मेषादीनामधीश्वराः ओरे विषमभेर्केदो समये शशिसूर्ययोः आदि पंच नवा देश प्रकर्ति पचेष्टाष्टाद्रि पंचाशा कुक शुक्रगाजे विपर्युग्रिशा शेष समीरिता क्रियणतौलिकर्काद्यमेषादिषु नवांशकाः स्वभाद्वादशभागे शड्रगं राशिपूर्वकं कोजाश्च कर्कयुक्मे न रात्र्याख्या पृष्ठकोदयाः शेषदिनाख्यास्तोभयं तिमिक्रोरस् सौम्यः पुमान् पुमान् श्रीचक्लीभश्चरस्तिरद्विस्वभावकाः मे शाद्यापूर्वतो दिक्दास्वस्वस्थानचरास्तथा अजोक्षणाङ्गनाकीडषजूपायिनादितः उच्चानि द्वित्रिमनुयुक्तिधिषु धनकां शकैः तत्तत्सप्तमनीचानि प्राङ्मध्यान्त्यां शकाक्रमाद वर्गोत्तमाश्चरादेषु भावाद्वादशमूर्तिमान् सिंहोक्षाविस्रश्च दौ लिकुभासूर्यात्रिकोणभम् चतुरस्रम् तूर्यमृत्युत्रिकोणम् नवपञ्चकम् नवपञ्चमम् ऋष्टषट्कम् त्रिकभम् केन्द्रम् प्राप्तोर्यसप्तकम् नृपादकीडपशवो बलाढ्या केन्द्रभाक्रमाद केन्द्रात् परम् पणपरमापोक्लिममतः ममदपरं रक्रश्वेतशुकनिभपाडलो धूम्रपाण्डुरौ चित्रकृष्णपिदपिङ्गौ बभृस्वच्छप्रभाक्रियाद साम्या शाख्यप्लवत्वं स्याद्वितीये वशिरर्कभाद कालात्मार्को कालात्मार्को मनश्चन्द्र कुजः सत्त्वं वजो बुधः जीवोज्ञानं सुखं शुक्रकामो दुःखं दिनेशजः नृपौरविन्दू नेधाश्रिकुमारोज्ञीजकौ सचिवो सूर्यजप्रेश्यो मदो ज्योतिर्विदाम्बरैः ताम्रशुक्लरक्त हरिदपीदचित्रासिदारवेः वर्णाव अव्यहरिद्रा शची कौधी पारवेः रविशुक्रारराह्वार्केन्दुविधिज्या दिगीश्वराः क्षीणेन्दर्कार रविजा पापा पापयुतो बुधः क्लीबौ बुधार्की शुक्रेन्दुश्रियौ शेषानरा स्मृदाः शिखि भूमिपयो वारिवासिनो भू सुदादयः कविज्ञौ कुजसूर्यौ च वेदोज्ञो वर्णपाप्रमाद सौरोन्त्यजाधिपप्रोक्तो हुर्म्लश्चाधिपस्तथा चन्द्रार्कजीवाज्ञसिदौ कुजार्किसात्विकाधिकाः सखायो सखायोपराधिपाः वस्त्रं स्थलं नवं वह्निकतं मध्यदं तथा स्फुटिदम् रवितस्ताम्रं तारेताम्रपुनिस्तथा हेम कांस्यायसि त्रयं शैशिशिराध्याप्रकीर्तिताः सौरशुक्रार चन्द्रज्ञ गुरुषुद्यत्सु च क्रमाद त्र्याः तुर्याष्ट सप्तमान्येन वृद्धितः सौरे ज्यारापरे पूर्णे क्रमात् पश्यन्ति नारद अयनक्षनकस्रर्तुमाः सार्धशरदो रवेः कडुतिक्तक्षारमिश्रमधुराम्लकषायकाः त्रिकोणात्सान्ध्यधा धर्मायुत्सुखो सुखोद्यप सुहृद जीवो जीवज्ञौ सितज्ञौ व्यर्का व्याराक्रमादमी विद्वम्का विकुजे द्वर्का सुहृदोऽन्यैरवेर्दृदः मेधोद्धनव्ययायत्रिबन्धुव्यापारगसुहृद ध्येकानुभक्ता मया ज्ञात्वा मिश्रीदीत्सहजान्मुने मत्कालो दि सुहृन्मित्रपूर्वकान् कल्पयेत् पुनः स्वच्छत्रिकोणगेहा प्रणवांशैस्तानजम् बलं दिक्षु सौम्ये ज्ययो सूर्यरयो सौरे सिदाब्जयोः रवा हृदुदगण्ये तु वक्रीजसमागमे उत्तरस्तादीप्तपराश्चेष्टा वीर्ययुदा मदाह निश्चीन्दु कुजसौराश्च सर्वदाक्षोह्निचापरे क्रूरा कृष्णे सिद्धे सौम्याः मदं कालबलं बुधैः सौरा राज्ञेज्यशुक्रेन्दु सूर्याधिक्यं परस्परं पापास्तु बलिनसौम्या विवक्षा कण्डकोपगे क्लीबे तदूशनद्वापि चन्द्रार्कांश समं जनुः स्वांसे पापा परां शस्तास्सौम्यालग्नं वियोनिजं निर्बलं च तदाद्येष्यं वियोनेर्जन्मपण्डितैः शीर्षं वक्रगले पदावंसौ पृष्ठमुरस्तथा पार्श्वे कुक्षी त्वपानाङ्घ्रि मेढ्रमुष्कौ तथा स्विजौ पुच्छं च दुष्पदाङ्गेषु मेषाद्याराशयस्मृताः लघ्नां साग्रह युग्दृष्ट्वा वर्णान् बलयुताद्वदे दृक्समानप्रमाणांश्च इष्टे रेखां स्मरस्ति दैः खगत्र्यांशे बलाग्नेगे चरमांस्ये ग्रहान्विदे वांस्ये स्थलाम्बुजः सौरेर्द्वीक्षयोगभवाद्विजाः विप्रलैस्तनुजचन्द्रे ज्यार्कैस्तरूणां जनिं वदेद स्थलाम्बुभेम् दोषकृतश्चेदरेषामुदाहृदः लाम्बुजपदिखेडो लग्नाद्यावन्मिदे गृहे तावन्त एव तखस्तलजा ता जलजास्तथा अन्तःसारवौ सौरे दुर्भगाः क्षीरिणो विधौ भौ मे कण्डकिने कण्डकिनो वृक्षा युज्ये ज्ञे सफलाफलौ पुष्पिदा भार्गवे स्निग्धाश्चन्द्रेध पटुका कुजे अशुभर्क्षे शुभखेडशुभवृक्षम् कुभूमिजम् कुर्याद्विलोमगोवापि स्वांशोक्तपरगैः समम् कुजेन्दुहेतुकं स्त्रीणां प्रदिमास निहार्तवद नेष्टस्ते ज्येऽन्यथास्ते स्त्री युक्सन्न रेक्षिते पापयुप्रेक्षिते द्यूने रुषा प्रीत्या शुभग्रहैः शुक्रार्केन्दु जैस्वांशस्तैर्यीज्य चाङ्गत्रिकोणगे भवेदपत्यं विप्रेन्द्र पुंसां सद्वीर्यशालिनाम् अस्रैर्केन्दो कुजार्किजेत् पुं श्रियो रामयप्रदौ व्ययकगोयुक्रौ चैकदृष्ट्या नृत्यौप्रदौतयोः शुक्रार्क्रौ मातृपितरौ दिवनक्तं शशीनजौ मातृष्व स्वपितृव्याख्या वा पत्मेजिशमे शुभौ पापदृष्टे शुभे क्षीणे तुङ्गे वा लग्नगेयमे क्षीर्णेन्दुकुजसं दृष्टे मृत्युमेत्य गदा ध्रुवं युगपद्वापृथक्सस्थौ लग्नेन्दूपापमध्यगौ यदा नारी मृत्युमवाप्नुयाद लग्ना चन्द्राच्च तुल्यस्तैः निधनगे कुजे नष्टेन्दौ कुजरव्योश्च बन्धुरिष्पगयोर्मृदिः तन्वस्थसंस्थयोर्भौमरव्यो शस्त्रभवः क्षयः यन्मासाधिपतिर्नष्टस्तन्मासं श्रवेत्यजेद् लग्नेन्दुगैः शुभैके डैस्त्रिकोणार्थास्तभूखगैः पापैस्त्रिषष्ठलाभस्तैः सुखी गर्भो रवीक्षिदः ओजभे पुरुषां शेर्के ज्यन्दुर्लग्नैर्बलान्वितैः भुवर्कौ विषमस्तौ वा युं जन्म प्रवदेत्तदा युक्मभांशस्थितैस्तैस्तु वक्रें दुर्भृगुभिस्तधा दा। यामस्तानगदैर्वाच्यं श्रियो जन्म मनीषिभिः द्वि अङ्घस्ताबुधसंधृष्टा स्वपक्षेयमलङ्काराः लग्नं विनौ जावस्तसौरः पुं जन्म कृतथा मिथो रवीन्दूर्ज्ञार्की वा पश्यदसमगं रविः वक्रो वाङ्गविधु ओजे जज्ञौ युग्मौ कुजेक्षिदेपु मांसे दुःखिता क्लीबजन्मदा समे सिदेन्दु ओजस्था ज्ञाङ्गोज्य नृवीक्षितौ लग्नेन्दुसमगौ युग्मस्ताने वायमलङ्काराः ग्रहोदयस्तान्द्यङ्गाशान् पश्यदि ज्ञे स्वभागगे कृदयं ज्ञांश काद्युक्ममिश्रै सममादिषेद लग्ने चापान्त्यभागस्ते तदंश्यस्त बलिग्रहैः वीर्याड्यज्ञार्किसदृष्ठशस्तावहवोगिनः सितारे ज्यार्कचन्द्रार्किज्ञाङ्गे शोर्केन्दवोधिपाः मासानां तत्समं वाच्यं गर्भगस्तस्य शुभाशुभं त्रिकोमेऽन्ये परैर्नष्टैर्द्विमुकास्निकपान्विदः अवागावाडावशुभैर्भैर्प्रजायते वीरान्सगी चदष्टे द्वष्टार्कादभसंहिताः संकिताः च ज्यभांशस्थौ सदन्तो गर्भकस्तदाः गर्भेजे भुवि मन्दारदृष्टे कूपजस्तु गर्भगः पर्गुर्मिने यमे द्वारैर्दष्टे धाङ्गे भसन्धिके पापैर्जडो विधौ गर्भशुभदृष्टिविवर्जिते मृगान्त्यगे वामनकसौरेन्द्रर्कनिरीक्षिते दीनयोदपैत्र्यं क्षैपापास्तैरसिरो प्रदाः रवीन्दुयुक्ते सिंहेम्गे माघेयार्किनिरीक्षिते नेत्रहीनमिश्रखेडैर्दृष्टे बु दुदलोचनाः व्ययेजो वामनयनं दक्षं सूर्यो विनाशयेद नेष्ठा योगाशुभैर्दृष्टा पापा स्युर्नात्र संशयः मन्देस्ते मन्दं शेङ्गे निशैकेऽब्दत्रये जनिः द्वादशाब्दे शशिन्येवं सुदावपि विचिन्तयेत् आधानेन्दुद्वादशां शा पापास्तत्राशिभि पुरः शशांगे जन्मभागाद्विद्विघ्न मिष्ट स्मृता परोक्षे जन्मसदिंदौ लग्नमपश्यदी पश्य मध्या भ्रष्टर्क विदेशस्थे जनने नारिजन्म वै मंदेगस्ते कूजस्ते जोस्फुजिध्ये विध पापाङ्गेब्जे त्रिभागे लौ स्वाय गैषद्भिरुद्गतः सूर्यस्तद्दृष्टिगोवापि ज्ञेयोज्यो गिर्विदाम्बरैः च दुष्पदक्षगे पानौ शेर्षै बलयुतैकगैः कोशाददौ तु यमलौ जायेदे मुनिषत्तमसार्क्यारसिंहोज्ञाजांसे भांशतुत्याङ्गनालयुक लग्नमिन्दुं च सार्केन्दुं न पश्यति यदा गुरुः स जायोवा परवीर्य वा पाप पापभस्तौ पा पापकेडैः सूर्यार्का नत्रिगोणगौ विदेशघत्पिता वृद्धके वा राशिवशाद्यये शुभे मुव्यम्बुजेतनौ द्यूनष्टे वा यादे गणानारी प्रसूयते अब्धां गमन्भगपूर्णे ज्यो वा पश्यति नारद स्वपंलग्नधत्सूदिसलिले नात्र नात्रसंशयः पापदृष्टे यमे गुज्यां जन्माङ्गाजव्ययस्तिते कर्का ले शौरे वटे जन्माजीक्षि मंद जन्म कद्ने बुध सूर्य दुवीक्षि क्रीड़ास्ताने दे। देहे प्यूष चक्रमाजनिशे लग्न दृगश्रुग्राम्यस्थानेब्जभार्गवौ अग्निहोत्रगृहे जीवोऽर्को भूषाभरणे गृहे शिल्पालये बुधो जन्म कुर्यात् बलसमन्वितः भासमाने सरे मार्गे स्थिरे स्वर्क्षां षगे गृहे त्रिकोणगज आरार्ख्योरस्ते वा सृज्यदेऽम्बया गुरुदृष्टे तु दीर्घायुपरं च प्राप्यते पुनः पापदृष्टे विधौ लग्नेस्ते कुजे तु भवे कुजार्ख्योः संदृष्टे परहस्तगतः पापेद्यदायुर्भवति मासः सार्धैपरैरपि पितृमातृगेहे जन्म तदधीशबलान्मुने तरुगेहे शुभे नीचे नैकस्तधृष्टौ लग्ने दुः ये तल्लक्षणसम्पन्ना प्रसीदिर्विजने तदा मम दर्क्षांशे विधौ तुल्ये मन्ददृष्टे जगेऽपि वा मन्दार्चने वा तमसि शयनं निजगे भुवि शीर्षे पृष्ठोदये जन्म तद्वदेव विनिर्दिशेद चन्द्रांस्तसुखगपापैर्मादुःपीडां समादिशेद जीर्णोद्धृतं गृहं मन्दे सृजिदग्धं नवाविधौ काष्ठाढ्यमदृढं सूयबहुशिल्पयुधं बुधे चित्रयुक्तं नवं शुक्रे दृढे रम्ये गुरौ गृहं दडाजकर्क्यलिखे पूर्वे ज्ञे ज्यगृहे ह्युदक वृषे पश्चान्मृगे सिंहे दक्षिणे वसतिर्भवेद् गृहप्राच्यादिगौ द्वौ पादा वद्यङ्गा कोणेष्वजादयः पर्यङ्गे वास्तुवत्पादासृषदङ्गात्यराशयः चन्द्रागां तरगैखेढैसुदिकाः समुदाहृताः चक्राद्धि बहिरन्तश्च दृश्यादृश्योपरेऽण्यधा लग्राश्रयसमानां गो बालिकेडं समोऽपि वाक्चद्रणं दां श वध्वर्णशीर्षाद्यङ्गविभागयुक् शीर्षकं दक्षवेणा कपोलहनवो मुखं कम् थां सपार्श्व हृद्वोषः क्रोडम्नाभिश्च बास्तिकाः शिंस्ना पादे जृषणौ जा जखने जानुनी तथा जङ्घे पादौ चोपखयत्र त्रियं शैः सम्मुदितैर्वदे पापयुक्ते व्रणस्तस्मिन्नङ्गे लक्ष्म च तद्युते स्वर्क्षांशे स्थिरयुक्ते दु नैज आगन्तुकोऽन्यथा मन्दे निलाश्मजो भौमे विषशस्राग्निजो बुधे भुजेऽर्के काष्टपशुजो जेतु शृङ्ग्यजयो निजः यस्मिन् संज्ञाश्रयखेडा अङ्गे स्युस्तत्र निश्चितं व्रणो शुभकृदपृष्ठे तनौ राशिसमाश्रिते तिलकृसकृदष्ट सौम्य युक्तश्च लक्ष्मवान् चतुरस्रप्तिं पैतिकोल्पकचो रविः पृतो वादकभिप्राज्ञो मन्दवाक्षुभदृक्षशि क्रूरदृक्ररुणो भौमः पैतिकश्चपलस्तथा त्रिधानोपृदिर्हास्य रुजिज्ञसृष्टवा तथा पिङ्गकेश्व क्षणो दीर्घकभिधीमान् गुरुर्मदः सुवपुर्लोचनकृष्णवक्रकेशो भृगुसुखी दीर्घकपिलदृग्बन्धो निलीकरकचोलसः स्नायुवस्तिरक्तत्वशुक्रवसा मज्जास्तु धाधवः मन्दार्कचन्द्रसौम्यास्पुञ्जि जीव कु भुवप्रमाद चन्द्रां कपापैर्भां त्यस्थैः सेम्भुपापचतुष्टयैः चक्रपूर्वापरे पापसौम्यैः कीडतनौ मृदिः उदयास्तगदौ पापौ चध्रक् क्रूरयुदैः शुभैः न चेद् दृष्टस्तदा मृत्युर्जातस्य भवति ध्रुवं क्षीणेब्जे व्ययगे पापैर्लग्नाष्ठस्थैः शुभा न चेद् केन्द्रेषु वाब्जो संयुक्त स्मरान्त्यमृदि लग्नगः केन्द्राद्याहस्तत्सन्केडैरदृष्टो मृत्युदस्तथा दृष्टे सद्यो मृत्युशुभेक्षिते समाष्टके मिश्रकेडैर्दृष्टे मृदिशिशोः क्षीणें जेङ्गे रन्ध्रकेन्द्रे पापे पापान्तरस्थिते भुज्युननि धने वाजे लग्नेऽप्येवं शिशोर्मृतिः पापैश्चन्द्रस्तगैर्मात्रा सार्धं सदृष्टिमन्तरा शुभादृष्टे भाङ्ग्यगजे त्रिकोणोपरधैकलैः सघ्नस्थे वा विधौ पापैरस्त ैर्मृदिमाप्नुयाद ग्रस्तेब्जे सद्भिरष्ठस्थैसृज्यवात्मजयोर्मृदिः लग्ने रवौतु श्रेण सवीर्य सद्भिरष्टगैः कर्केन्द्वीज्य युधे लग्ने केन्द्रे सौम्ये च भार्गवे शाय ैरीश गैरायुरमिदं भवदि गोत्तमे मीनलग्ने मृगोत्तमे मीनलग्ने वृषेऽब्जे तत्त्वलिप्सिके स्वतुङ्गस्तेष्वंशेषु परमायुप्रकीर्तितं शुभैर्दृष्टः सविर्योगे केन्द्रस्ते चायुरर्धदः स्वच्छोब्जे स्वर्क्षगै सौम्यै स वीर्येङ्गाधिपेतनौ षष्ट्याब्धकेन्द्र सौम्येभ्येष्टशुद्धे सप्तधिर्गुरौ मूलत्रिकोणगै सौम्यैर्गुरो स्वेच्छसमन्विते लग्नाधिपे बलयुधीत्यब्धम् सवीरे सवीर्ये सवीर्ये द्रेशु त्रिंशत् शुद्धियुधेष्ठमे दयेशे धर्मगे जीवेष्ठस्ते क्रूरक्षिदे चितः लग्नाष्टमेश वष्ठस्थौ भाब्दमायुक्करौ मदौ लग्ने शुभेज्यौ ्लौ दृष्टौ मृत्यौ कश्चन च कृतिः धर्माङ्गस्ते शनौ शुक्रे केन्द्रेऽब्जे व्ययधर्मगे सदाब्दं गीष्पदौ कर्के कटकस्तसिदेज्ययोः जये शेङ्गे शुभैर्हीनेष्टमे रवाब्धिमिदं वयः लग्ने लग्नेेष्टमगेष्टेशे तनुस्ते पञ्चवत्सरं कविज्ययोगे सौम्याब्जौ लग्ने मृत्यौ च स्वेशवः ये दद्योगजमायुस्यादस्पष्टमुदीयते सूर्याधिकबले पैण्डं निसर्गा विधोबा सबल लग्ने तत्धनम शुणु गोप्यातिधि सूरियास्तक्रम विधुर्वा वमकाश दृदिस्वाक्षिखण पिंडे निसर्गे रवोच्चे ग्रहषड्भाल्पको यदा शक्रशुद्धस्तदा ग्राह्ये स्यांश्च आयुषिसम्मदाः अंशो न शं तृभे कार्याग्रहं वक्रगतिं विना मन्दशुक्रौ विनार्धो न हानिद्वयेऽधिककार्य यदा क्रूरस्तनौ तदा विहायारी न शां ध्याैर्हन्यादायुर्लवान् भजेद भगनां शैर्लब्धैः नस्तेषां कार्या विचक्षणैः पापस्यां स्यात् समग्रो न सौम्यस्यार्ध विवर्जिताः खष्रिया स गुणयित्वा स्वकैर्गणैः वर्षाणि शेषमर्कध्नम् आरासं मासकस्मृताः तच्छे षष्ठत्रिगुणिधस्तेनैवातं दिनानि च शेषेषष्ट्या पदे भक्ते हारेणकटिकाधिकं चित्वा भाज्यङ्कभागादीन्कलीकृत्य कखाक्षिभिः भजेद्वर्षाणि शेषेद्गुणिदे द्वादशादिभिः द्विसप्तांशे च मासादिलग्रायो जायदे स्फुटम् जायदेस्पुडं, सलग्नानाम् केडानामं शकाहृताः खयुगैरायुरं शास्युस्तत्संस्कारं वदामि ते ग्रहन्न लग्नं षड्रात्यं चेत्संस्कारोऽन्यथा नहि तदं षत्स्वाग्नयो भक्ता लब्धो नो भूर्गुणो भवेद् यदैकाल्यं तदास्तां साग्र्याप्तेतो नाच भूर्गुणः सौमयस्यार्धेन पापस्य समग्रेणेधि निश्चयः गोमकध्नाश्चायुरंशा संस्कारोऽयमुदाहृतः आयुरंशकलाभक्ता द्विंशत्याब्दा ीना कतं शेषं द्विशतभक्तं स्युर्मासा शेषा दिनादिकं लक्नायुरं शास्त्रिगुणा दिग्भिक्दा स्युःसमास्तदः शेषेकादिगुणे भक्ते दिग्भर्मासाधिकं भवेद् सबलेङ्गे भतुल्याब्दै युधमायोर्भवेत् पुरम् अंशद्विध्नमक्षांशं मा सा कर्त्रादि गुणाद शेषादिनादिकं योज्यं नैदत्क्षिण्डनिसर्गयोः लग्नार्कचन्द्रमध्येदु यो बलि तद्दशापुरा तदकेन्द्रादिगानां तु द्वित्र्यादौ बलस्य च बह्वायुर्यो वीर्य साम्येऽर्काद्युतस्य प्राक् याचकः षड्वर्गार्धस्य त्रिंशस्य त्रिकोणकश्च स्मरगः सप्तमासस्य तुर्यस्य चतुरस्रगतस्य च क्रमकेन्द्रादिगोत्रापि द्वित्र्यादौ सबलस्य च पाकपस्याब्धि नागाश्च ह्यर्नवा सहगस्य च त्रिकोणस्तस्य चाष्टाक्षि सूर्याद्योनगदस्य च तूर्याष्टगस्य दुःस्वर्गा गुणकाः परिकीर्तिताः दशा गुणैर्हदा भक्त्या गुणैक्येन समागताः शेषर्कादिकदे भक्ते मासाद्यैक्येन नारद अं तर्दशासु विदशास्तासु चोपदशास्तर्था दशमित्रस्य चक्षं गोब्जोऽब्ज्य एकाद्रिवृद्धिकः शुभगो यद्भगस्तद्भिन्वाधिस्थेन तद्धिकृत प्रोक्ते तरस्थानगदस्तत्तद्भावक्षयंकरः खगस्य यद्भवेद्रव्यं भावदेक्षणयो गजं जीविकादिफलं सर्वं दशायां तस्य योजयेद् विशन्यापदशायां यो दृष्टो वैरिदृष्टो विपत्तिकृतशुभमत्रेक्षितश्चेष्टसद्वर्गस्तश्च यो ग्रहः तत्काले बलवानापन्नाशकृत्समुदाहृतः यस्याष्टवर्गजं चापि बलं पूर्णशुभं भवेद् यश्च मूर्तितनुग्लावो ृधिगस्वेच्छभस्तितः स्विकोणसुहृद्भस्तस्य मध्यमसद्भलं श्रेष्ठं शुभदरं वाच्यं विपरीतगदस्य तु नेष्टमुत्कणमिष्टं तुस्वल्पं ज्ञात्वा बलं चरे सन्मध्य विपर्ययाद दुष्टाभ्यामङ्गभङ्गे विपर्ययात् स्थिरेर्णेष्टमभ्याय होराया स्त्रियम् शकैफलम् स्वामीज्यज्ञयुगा होरा, स्वामी होरा दृष्टा वा सत्पलावः विनाशदृष्टयुक्ता च पापान्तरगतान्यथा प्राग्ध्वांसा बन्धुमृत्याय तयोर््यूने रविस्वभाद वक्रास्वादिवसाञ्चार्के शुक्राद्यूनां तु षड्रदः धर्मध्यायारिगो जीवादिकत्र्यारिगो विधोः वृद्ध्यं त्याधितपासुज्ञा ततो वृद्ध्यम् ्याबं धुराः वृद्धि गों गात् स धनखी तपः स्वादाच्च शी शुभः स्वधू वृद्ध्यस्तादिशो वृथात् स साष्टौ पञ्चयोपगः षत्र्याय धीस्थो मन्ताञ्चज्ञा द्वित्र्यायाष्टकेन्द्रकः केन्द्राष्ठायान्द्य इज्याद्वा ज्ञायास्तत्र स्वेकवेः वृद्धा विना सादि धिया मङ्गमाय हरिगोविधोः केन्द्राष्टा पार्थकस्वर्क्षान् मन्दाद्गोष्ठाय केन्द्रगः शत्रिधी सौम्यात् षड्ढ्वां साष्ठगो भृगोः कर्माय व्ययषष्ठस्थो जीवद्भौमः शुभ स्मृतः कवेर्ध्याष्टमोऽध्याये सो मन्दान् सधित्रये साक्षास्ते भूमिजीवाद्ययारि भव मृत्युगः धर्मायारि सदान्त्येऽर्कात् साध्यत्रिस्वगदास्वभावाद स्वभादकर्कायाष्टाग् कोस्विज्यात् सहाद्येषु विदग्नदः दिक्वाष्टाध्यस्तबं ध्याये कुजात्कात्सत् त्रिके गुरुः सा त्र्यङ्गे सन् रवे शुक्राद्धि खगो दिक्भवारिगः चन्द्राद्विशार्धगोष्ठेषु मन्दाधेत्रिषडन्त्यगः गोधिषट्कखाध्याये दिधीश। गो ज्ञात् स द्यूने विलग्नदः आशुतेशाष्ट गोष्वाङ्गः त सां तेष्वब्जास्थितः शुभः स्वसज्ञेषु त्रिधि गोब्धि दिक्षिद्रासि गदोर्कजाद रन्ध्रायव्यजगसूर्यादोष्टधीके सगोर्गुरो धि त्र्याजि गोरात्रिषढ्याध्याम् त्यगोषु च त्रिधीषारिषु मन्थकात् साक्षान्त्येषु शु भो स्रज केन्द्रायाष्टधनेश्वर्का चन्द्राभत्त्रिषड्भदः षष्टान्त्यगश्चुक्रा द्विशान्त्यशत्रुषु उक्तस्थानेषु रेखादो श्यनुक्तेषु तु बिन्दुदाख जन्म भाद्वि द्वि मित्रो च स्वभेधिष्ठम् परेष्व सद कष्टमर्धक्षयक्लेशत् समतार्थसुखागमः धनाक्तिः सुखमिष्टाप्तिरिधिरेकाबलं क्रमाद पितृमातृद्विषन् मित्रभ्रातृस्त्रीभृतकाद्रवेः स्वामि जग्राजयो स्वस्ताद्भे दर्कस्वयशोषयाद तृणस्वर्णाश्वधोरणाद्यैरर्कां स्ये वृत्तिमादिषेद कृष्यं भुजश्रीभ्योब्जां स्ये कौजे धात्वस्रसाहसैः काव्यशिल्पादिभिर्बोधे जवे देवद्विजाकरैः शौक्रे रचत रुक्रै गोरत्नैर्मान्दे हिंसश्रमाधमैः स्वेञ्चेष्वार्गी तथाज्ञ्यारैरुक्रैकां गे नृपाधिपाहलग्रे वर्गोत्तमेज्येव चतुरादिग्रहेक्षिते द्वाविंशभूपास्तु घे श्री चापेर्केन्दूयमस्तन्नौ भूपकृतुं गगोऽर्को गेस्ते जा जार्को खभे यमें दुन्दुं गगौ लग्ने षष्ठेर्कस्न्यौ तुला जगौ सिता सृजो गुरौ कर्को स राजे नृपाः पृषे गेभ्येऽर्केज्य सौर खगय नृपः मन्दे मृगाङ्गे त्रि अर्यकांशस्तैरजादिभिर्नृप सज्याज्येष्वे मृगमुखे कुजे तुङ्गेऽर्क्षभागे वौ लग्ने दश ज कर्केङ्गे ज्ञा ज शुक्रायिर्भवो पगैः सारेतना वजे आर्के जीवे तनो वापि नृपोऽधो कुजभास्करौ धीस्तौ गुरुविदुकवयो भूमौ त्र्यगे बुधैर्नृपः मृगास्य लग्नहैः सौरे जाजक्षहरयसयाः कविक्षौ तुलयुरमस्थौ वै भूपः कीर्ति मान् भवें त यस्य कस्यापि तनयः प्रोक्तैर्योगैर्नृपो भवेद् वक्ष्यमाणाैर्नृपसुतो ज्ञेयो भूयो मुनीश्वरः स्वेच्छे भगदेलयुदैर्नृपः सिंहर्के मेष लग्ने जे मृगे भौमे खडेष्ठमे चापे धरानाथस्यादघस्वर्क्षगे भृगौ पादालके धर्मगेब्जे शुभदृष्ठे यदे मुहे त्रिलग्नभवगैश्चे शैर्धराधीश्च प्रजायते सौम्ये वीर्ययुदेऽङ्गस्थे बलाढ्ये शुभगे शुभे धर्मार्थोपजयस्तैश्च शैर्धर्मयुधो नृपः मे शूरणाधनुगा शशि सूर्यज सूरय नारौ दने शरविभु भूपिस्त वृशंगे जोधना जीवाक सुखे गुर के विन्दूयमो लग्ने भवेकरै लग्ने वक्रसितौ चन्द्रे ज्यसिदार्क बुधाक्रमाद सुखास्तु शुभाप्तिष्ठानरेशं लग्ना कर्मलग्नगरवेडस्य दशायां राज्यसंगतिः प्रबलस्य दशायां वा शत्रूनीचादिगार्तिदाः आसन्नकेन्द्रद्वयगैर्वर्गदाघ्यसकलग्रहैः तन्वस्तगैश्च सकटं विभगो राज्यबन्धुगैः शृङ्गाटकं दिगौ चैर्लग्नायश्चैर्हलं मदं वर्जेजाङ्गेष्ठे सस्व सत्सु तुर्यकस्तैर्यवोण्यथा विमिश्रैकमलं प्राकुर्वायाकण्टकबाह्यगैः लग्नचतुर् भुगैर्युपशरस्तूर्याच्चतुर्भुगैः द्योनाद्वे दक्षगैषक्रिं दखादिचतुर्भगैः लग्नात् क्रमात् सप्तभगैर्नौकाकूटस्तु नुर्यतः छत्रमस्तु तात् स्वभाद्या योऽन्यस्मादर्धेन्दुनामकः लग्नादेकान्तरगतैश्चक्रमर्धात्सरित्पदिः षह्युस्थानेषु वीणाद्या समसप्तार्क्षगैः वीणादामपाश केदारभूषूलयुगगोलकाः ग्रहैश्चरभगैराजयोगः प्रकीर्तितः स्थिरस्थैर्यमुसलं नामद्विशरीणस्तैर्नलः ना बालाकेन्द्रस्थितै सौम्यैः पापै सर्प उदाहृदः ईर्युरद्वरुचिरज्ज्वा मुसले धनमानयुक व्यङ्गास्थिरालो न लजो मो निस्रजो हि जोर्दितः वीणोद्भवति निपुणा गीतनृत्यरुचिर्भृश्यं धादा समृद्धो मास्तपाशजोधनशीलयुग केदारोधकृषिकरशूले शूरोक्षदो धनः युगं पाषण्डयुगो विधनो मलिनस्तथा भूपभ्यपदश्चक्रे समुद्रे नृपभोगयुग सुभगा गोर्धचम्पात् सुखी शूरश्च चामरः मित्रोपकार पृच्छदे कूडे चानृतबन्धराड तौजसकीर्तिः सुखभात्मानवो भवद् ध्रुवं त्यागीयज्वात्मवान् यूधे हिंस्रो गुह्याधिपशरैः चक्रौ नीचो लसो निस्वो दंडे प्रिय वियोग वियोग्यर्कस्वाद्यो भयगधेड सैनफ नुर्धरा भा। दुरुधरा चैव ज्ञय के मुद्रमु था स्वोपार्जितार्थभुग्दासुनपायां धनीसुखी नीरोगशीलवाङ्ख्यादस् सुश्चनवः भोगी सुखी धनी धानी त्यागी दुरु दुरोद्भवः हे मुद्रमेधिमलिनो दुःखिनीचोधनिर्धनः यन्द्रियास्म पारं शाजोको भौम पुष्करुतेर्ध्वगसुज्ञः सुकीर्तिर्निपुणं विद्वांसं धनिनं तथा शेन्योन्यकार्यनिरधं सास्फुच्छिस्रज्जीविनम् समन्दो धातुकुशलं तथा भ्राण्डं विदम् मुने कोडशन्या शवपण्याठं नम्रं सत्कीर्तितं युधम् स्थिरवयं वंश्यं विक्रान्तं च समर्धिनं ससिदो सुखवेतारं सार्किपोनभवं मुने आरे से वासुयोगी पुराध्यक्षः सगीष्पदौ सशुकेद्युदक्रर्हयो नृतिद्युदि स मन्दके सेज्यज्ञे नृत्यगीताढ्यो माया दक्षः सभार्गवेदमन्दे लुप्तक्रूरो नरो भवति नारद स शुक्रे वाक्पदौ विद्वान् सासिदेकटङ्करककवौ स मन्द मन्दाक्ष वा वनिश्रय विद्वा कस्थुराध्यो कवाधकृथक शुक्रा सूर्य नरह पिव्रजे नर शाख्याजीवक वृद्धाथिजर पाफलाशन तत् स्वामिभिः परिदजितैः प्रव्रज्या प्रच्युतिर्भवेद् अदीक्षिताल्पस्तगतहै गतैः सबलैस्तभक्तयः जन्मपोऽन्यैर्यद्यदृष्टो मन्दं पश्यति नारद मन्दो वा जन्मपं नष्टम् तथा च मन्दकारणे भवो मार्कांस्ये सौरधिष्ठे चन्द्रे वा दीक्षितो भवेद सुरूपो भूषितगोषिण्यां दक्षसत्यवचाय मे बहुभुपदारग्नौ स्थिरधिप्रियवाप् तथा रामो धनी मृगे भोगी रौद्रे दांदो रोगी शुभो द्वितीयां पुष्यर्यजन्मा कविः सुखी दूर्तशकृदनो हौ पापसर्वासनो भवेद् पत्रे भोगी धनी दादा दा प्रियवचा। भगे धनी भोगी मार्क्षे स्थेनो दृष्टो गृणीकरे चित्राम्बरसुधृत्वाष्ट्रे न च धर्मदयापरः द्विषलुब्धः पटुक्रोधी मढयो आठनो विदेशगः शाक्रे परस्तुष्टो मूलो मूले मानी आप्ये आप्येमानी दृष्टो वैश्वे नम्रश्च धार्मिकः सुखी क्यादो दादाशूरो धनी वसौ चेतरिहं दाव्यसनि श्रीजिदो हि भेदिनि वक्ता सुखी कान्धपौष्णे शूरोधनी शुचिः कामेश्वरकृतज्ञोजे कान्धस्यागीक्ष्मी वृषे युग्मे श्रीद्युदशास्त्रज्ञाश्रयिणो ह्रस्वस्वभे विधौ श्रीद्वि क्रोधी हरोमानि विक्रान्तस्थिरधीसुखी धर्मीसुलक्ष्मसुधिषष्ठे प्राज्ञ प्रांशुर्धनी खडे योगीपूज्यः क्षदीर्कौर्प्ये कविशिल्पी का ज्यभे धनी मृगे लसो धनस्वक्ष परधारार्थकृ सबले भैभये वापि स वले जयशिलफलम् अन्यथा विपरीतं तत्फलं मे वं परे पिबपि न ख्यादश्रीद्विधनी तीक्ष्णो ज्ञकविशौण्डिको धनी पूज्यो लुब्धो धनसखो मैषादौ भास्कर जनौ निस्वर्पे भूमिपुत्रे भूमिपुत्रे धनीचांद्रे स्वभेदन बौधे कृतज्ञ जोख्यादेण्य दिक मृगे भक्वात्मजनकुंभे दुख्यनृतिकलह श्रीद्वेष्य स्वजनद्वेषी नियराद्य सधीयनः समानार्थसपुत्रश्रीसर्णसूर्यादिभे बुधे सेनानीस्त्रियर्थ पुत्राढ्य पुत्राढ्यः दक्ष महिष परिच्छदि मण्डले शार्थ सुखसर्णस्वाम्यर्कभाद्गुरौ स्त्रियार्थो मन्दशोकाढ्यो बन्धुद्वेषी धनाघवान् सार्थप्राज्ञसमख्यादिश्रीजिदोर्कादिभे मृगौ व्यङ्गजार्थो खप्रसूगो विधिमित्रोऽसुखत्रयः सत्पुत्रस्त्रीधनुराजा ग्रामे शोगादि भेर्कजे शोगादिभेर्कजे भूपज्ञगुणि पौरास्वधृष्टे जे जयसृगादिभिः निःस्वस्तेन नृपा प्राज्ञ प्रेष्यामविनृयुग्मने युग्मगे ध्यात्वा जीवि नृपज्ञाभिन्तु वाया धनास्वभे यो योत्सु कवि सूरिज्यधादु जीवि दृगामयाः ज्योतिर्ज्ञाद्येज्यनु खलु नृपेज्ञादिकर्हरौ ष्ठेश भैरपूपनपुण्यवदिताशया जशेष भूपस्वर्णकार वेजेशु दिपैतृकाधि नो व्यंका स्विथतिपालक्ष्मनयाचा सद्धि धर्मी षडस्तथा भूपमण्डितसखे ज्यामृगे भूयान्यदाजिकौ कुम्भे शेषैश्च हस्त्यज्ञनृपत्न्यात्सीरन्त्यभे हारे सर्क्षदलस्थैस्तु दृष्टो युक्तः सी त्रियांशे सप्पदि मित्रच्छ गदेर्युग्रे क्षिदस्तथा द्वादशांशे फलं प्रोक्त आरक्षको यथ कीर्ज्यते आरक्षको वधरुचिर्नियुद्धकुशलोर्धवान् कलहः क्षिदिजांस्ते शौक्रे कविः सुखी बुधां सेदु नडचौरत्नशिल्पिनः स्वां सेत्वल्पतनुःसखस्तपस्वी लोपतत्परः क्रोधी निधीशो मात्यो वा नृपो हिंस्रो सुतो हरेः जीवांशे हास्य विद्यो ली मन्त्री च धार्मिकः अल्पापत्यो दुःखिदो खो दुष्टस्त्री सौरिभागगे भाना दृष्ठे नु तद्वदेव फलं वदेद वर्गोत्तमेके परभे फलमुक्तं शुभप्रमाद पुष्टं मध्यं लघुज्ञेयं यदि चां शपधिर्बलि राशीक्षणफलं रुद्ध्वा ददात्यं शफलं स्फुटं चूरस्तब्धो विकलदृग्निघृणोर्के तनुस्थिते मेषे धन्वी तैमिरकसिंहे रात्र्यन्ध एव च कर्ककेऽर्के उद्बुधाक्षस्तनुस्थिते द्विदीयेऽर्के बहुधनो नृपदण्ड्यो मुखामयी स्त्रिगे बुधो विक्रमी जविमुखपीडिदो भुवि धनापत्यो कृदोद्धिष्टे बजीशत्रु जिदोरिगे स्त्रिजिदो द्युनः निधने निधनेनाल्पजोऽल्पदृतसुधार्थसुखभाग्ये दशमे श्रुतशौर्यवादलाभे बहुधनोमानी पतितो कोऽव्ययैरवौ मुकोधो बधिरप्रेष्यो जे गे काञ्चा जगे धनी गुढुवा धनवानधे हिंस्रो विक्रमगे भवेद साधु भावसुखगदेधिस्ते कन्या प्रजोलसः अल्पाग्निकामस्तीक्ष्णो रौ यीष्युस्तत्रिमदो ज्ञरवे व्याघिपुणान्विदो मृत्यौ भानोर्धनगे मित्र धनान्विदः धर्मधि धनयुग्राज्ये ख्यादद्धि धनयुग्भवेद क्षुद्रोऽगहीनो ययगे चन्द्रे प्रोक्तं फलं बुधैः लग्ने कुजे क्षदतनुर्धनगेदु कदं न भुक धर्मपाप समाचारोऽन्यत्र सूर्यसमो मदः विद्वान्थनी च प्रवरः पण्डितः सचिवो रियुधर्मज्ञो विस्तृतगुणो काधो ज्ञेयरतोऽर्कवद विद्वान्सवाच्यकृपणी सुखाक्षो रिपु गृद्धिमान् नीचस्तपस्वी च्ण्णवनी लोभ दुष्ठस्तनोर्गुरो स्मरी मुखी विलघ्नस्थे कलह सुरतुक सुखिते चृगौ जीव वद निस्वो रोगी कामवशो मलिनश वाग अलसो लग्नगे मन्दे धर्मात् स्वोञ्चगदे नृपः ग्रामाधिपः स विद्वांश्च चार्वाङ्गोन्यत्र सूर्यवद पूर्णमुच्चेद पादो न फलं मूलत्रिकोणगे शुभग्रहेदलं स्वर्क्षे मित्रभें घ्रिमितं फलं शत्रुभेल्पं तथा नीचास्तं गदे फलशून्यता कभराकादिके खेडे कुलतुल्यकुलाधिकः बन्धुपूज्योधतनवान् सुखी भोगी नृभक्रमाद परिवित्त परिवित्तसुहृद्वम्भु कोश्यागणबलाधिपौ नृपश्च मित्रभास्येषु केडे प्रेङ्गादिशुप्रमाद विषमक्षर्कहोरायां संस्थिते शुभेषु च ख्यादो महोद्यमी चादितेजा धीमान्तनी बली शुभेषु चन्द्रहोरायाम् ेषु समराशिषु कान्तिमार्दवसौभाग्य भोग धीमान् भवेन्नरः समभेशुदु मध्यमागा मध्यमाग विषमार्क्षेषु भास्कर्या सौम्या नोक्तफलप्रदाः स्वमित्र्यंशगश्चन्द्रः सुरूपं गुणिनं नरं करोत्यन्नगदस्तद्वत्तत्तुल्यगुणरूपिणं व्यालायुधे च दुष्पादाञ्जेषु च त्र्यंशके च तीक्ष्णेधि किंस्रश्च भवेद्गुरुतल्पगतोऽनः स्तेनो भोक्ता सधनधीर्नृपक्लीबश्च शत्रुः वृष्टिहृद्दासवृत्तिश्च पापो हिं स्नोमधिर्भवेद मेषादिकोत्तमांसेषु द्वादशांशेषु राशिवद जाया बलविभूषाढ्यसक्रुक्तोदि साहसी तेजस्वी च नरकाये तृं कृजिसंस्थिते आमये वा स्वभार्यायां विषमः भारतारिकः दुःखी परिच्छदयुधो मलिनश्चार्कजे लोकपूजितः निरगुह्य भोगी जीवे कत्रिंश विवादक मेधाकलाकाव्यशिल्पविवादकपडाञ्छितः शास्त्रार्थ साहसयुधो बुधे स्वत्रिंशभा गगे बह्वपत्सुखरौग्यरोगरूपार्थसंयुधः ललिताङ्गो विप्रकीर्णेन्द्रियः स्यात् भार्गवे सूरस्तब्धौ जषमवधकौ सद्गुणान्वितौ सुखे ज्ञोचारु चेष्टाङ्गौ चन्द्रार्कौ चेत् भुजादिगौ मूलत्रिकोणस्वक्षोच्चे कण्ठस्थास्तु च ग्रहाः अन्योन्यकारकास्ते कर्म वस्तु विशेषतः शुभं वर्गोत्तमे जन्म वैशिष्टानि वसतृकैः अशून्येषु च केन्द्रेषु कालकाख्यगृहेषु च गुरुजन्मे शलग्नेशाः केन्द्रस्तामध्यसौख्यदाः पृष्टो भवकोग्पक्षस्थितास्त्वं ह्यान्तरादिषु प्रवेशे भास्करकुजौ मृग्वीज्यो मध्यगौ तथा चन्द्रार्किफलदा वन्दे सदाज्ञफलदायकः लक्नात् पुत्रे कलत्रे वाब्जाुभेश युधेक्षिते स्यात्तसम्पदस्वत्वमन्यथातोदयः रवौभि नैर्कजश्रीघ्नपुत्रतस्तु तथा कुजः सीमातुर्याष्टकैः क्रूरैर्यद्वा क्रूरान्तरे सिधः सग्रकायुधृष्टश्चेदग्नि पादान्मृदिस्त्रियाः लग्नद्यपाणिगदयोः शशिरव्योस्सह स्त्रिया एकेन यस्य जन्माहुरथसप्तमसंस्थयोः नवधिगदयोर्वापि विकलश्रीसिद्धार्कयोः कोणोदयेस्तां प्यसन्धौ भृगौ बन्ध्यापदेऽर्जनिः सुदभं च न सौमढ्य म्या स्तोदत्यर्क्षकैः पेधिते विधौक्षीण जन्मासुदकलत्रिणः शनौ हवेस्ते स शुक्रे तदृष्टे पारदाजिकः सौच्येत् सेन्तु श्रिया पुंश्चलो जायते नरः भूवाब्जयोरस्तगत्योर्नरो भार्यासुतोपि वा नृश्रियोस्तु शुभैर्दृष्टौ तौ द्वौ परिणस्ताङ्गकौ रवास्ताम्बुगैरिन्दुशुप्रपापैर्वंशविनाशकः शिल्पित्रियेश्ये बुधयुधे केन्द्रसंस्तार्किवीक्षिते दास्यां जादसौरिभागे ऋगे भृगुनन्दने नीचेऽर्केर्दोरस्तगयो दृष्टयो सूर्यजे न वा पदृष्टौ शनिकुजा काल्यं शगदेकेन्द्रे पापयुक्ते दु कुह्यरुक पापतरगतं गेब्जे रवद्युनेदु हुष्ठयुग चन्द्रे केष्टाङ्गदे भौमे विकलो वेशिकेऽर्कजे मिधो भांसगयोशूली रवीन् द्वोर्युदयो कृशः निधनारिधनान्त्यस्था रीं द्वारय मा यदा चलग्रहेण दोषेण कुर्वन्त्यनयनं नरं सौज्ञा दृष्टान् वायत्रिधिगताः पापगेजराः रद वैकृत्यकारकाः लग्ने गुरौ द्युम्ने मन्दे वादरोगादिदो भवेद सुखे सेवा कुजे जीवे लग्ने वाके युधोदये कुजेन वात्मजेद्योने संज्ञे त्येब्ज्ये च सोन्मदः धीधर्मार्ध्यान्त्यगः पापैर्भस मस्यान्निबं धनं सर्पशृङ्खलयाषाढ्यैर्दृक्कैर्बल्यशुभेक्षितैः समन्देजे वक्रदष्टे पस्मारी दुर्वजामन्दभुजैरवस्थै सौम्यदृष्टै समण्डलैः भृतकापूर्वमुदितैर्वरमध्यागमानराः पुं जनौतुफलं पुण्यश्रीणां योग्यं तत्स्वामिश्वकिलं कार्यं तत्स्वामिष्वखिलं कार्यं तद्भर्तृमरणं मृदौ लग्नेन्दुगं वपुश्चैव वा, याधयोपविदध्युने युग्मेषु लग्नशिनोर्वनिता प्रकृतिस्थिता सच्छीलभूषणयुधा शुभसंदृष्टयोस्तयोः पुरुषाकृतिशीलाढ्यातयोरोजस्तयोर्मदा अध पापा गुणो नश्च पापवीक्षितोस्तयोः कुजार्कीज्यज्ञशुक्राणां कुजर्क्षे क्रमशोऽगणा बाल्य दुष्टा तथा दासी साध्वी मायावदी त्वरा दृष्ट्वा वा कृतिशीला स्यात् तयोरोजस्तयोर्मदा अथ पापगुणो नश्च पापवीक्षितयोस्तयोः वा पुनर्भूस् सगुणाविज्ञाख्यादास्फुजिद्गृहे बौधे समायाक्लीवा च सती गुणवती चला दुष्णवाक् पुनर्भोस्सगुणाविज्ञाख्यादास्फुजिद्गृहे बाउधे समाया समयाक्लीवाच सती गुणवती चला द्वं द्वभे स्वैरिणीषध्नि गुणाढ्या शिल्पिकाधमा वाचाटा कुलटा सिंहे राशी पुंधिरगम्यता जैवे गुणाढ्याल्परधिर्गुणज्ञाज्ञानि सती दासीनि चरदासाध्वी मां दे दुष्टानपत्यका लग्नें दुयुक्तै सृशं श्यां शैःफलमेदद्वलानुगम् दृहैमिध्वंसे शुक्रार्कि शौक्रे चेद्वा खडांशके स्त्रीभिस्त्रीमैथुनं यादि मदनालनदीपिदा शून्ये का पुरुषोदून्ये बले क्लीबो न सदृशी बुधार्ह्योश्चरभे नित्यं परदेश्यपरायणः तत्सृष्टा मदगे सूर्ये स्त्रीबाल स्त्रीबालविधवा कुजे पापदृष्टे शनौद्यूने कन्यैवा पद्यदे जराम् आग्नेयैर्विधवास्तस्यै विधवास्तस्थैः पुनर्भूमिश्रकैर्प भवेद क्रूरे हीनबलेस्तस्य पदित्यक्दानसदृशि मिधों शगैः <Sess> ीदरश्मिर्यदा द्यूने तदा भर्तुरनुशया सौरारार्क्षे लग्नगदे सेन्दुशुक्रे दुवन्धगी मात्रा सार्धमसधृष्टे तदा कौश्यं शकेष्टगे मन्ददृष्टे व्याधियोनिषद् ग्रहांस्ये पदिप्रिये मन्दर्क्षेवांश्च केद्यूने वृद्धौ मूर्खः पदि स्त्रियाः स्त्रीलोलक्रोधनकौजे बहुधे विद्वांश्च नै पुनः चान्द्रे कामीमृदुस्तथा शौक्रे सौभाग्ययुक्कान्तसौरेदि मृदुकर्मकृत शुक्राजयोर्लग्नगयोः सुखी निष्यासमन्विता ज्ञे द्वे कलसु निपुणाः सुखिता सुकिताच गुणान्विता योस्तु शुभगा कलाज्ञा रुचिराङ्गना अनेकसौख्यार्थगुणालग्ने सौम्यत्र येष्टिते क्रुरेष्ठमेष्ठमेषां चे यस्य स्या तद्वयः समे च मृदिस्तस्या स्वयम् सत्स्वर्थके श्रुतु अल्पापत्यत्वमब्जे स्याः कन्यालिहरिगोषु तु सौरे मध्यबले चन्द्रशुक्रज्ञैर्बलवर्जितैः शेषैः सवीर्यैरोजर्क्षे लग्ने कुरूपिणी भवेद् जीवारक विषौम्येषु बलिषु समभेतनौ विख्यादानैकशास्त्रज्ञावनिता ब्रह्मवादिनी पापेस्ते नवमस्तस्य प्रव्रज्या मेदि पामिनी उद्वाहे वरणे प्रश्ने सर्वमेदद्विचिन्तयेद् मृत्युस्थानं पश्यतां स्याद्वलिना धादुकोपदः नृणां मृत्युहितं युक्तं भगात्रोऽस्तोपधभूरिभिः सवीर्यैर्बहुजोग्न्यक्षतज्वररुगुद्भवः तृक्षु भवश्चाष्टमस्थैः सूर्याद्यैश्च वरादिषु परस्वाध्वप्रदेशेषु मृत्युः सूर्यमहीजयोः स्वबन्धुस्थितयोः पुंसशैलाग्नाभिरुतस्य च बन्ध्वस्त कर्मगैर्मन्दभूजैप्रहौ मृदिः स्त्रियां हि मोष्णकरयोस्वजनात् पापदृक्तयोः तोयमृतो रविधृदु स्यात्तां या द्युभयो दये शस्त्राग्निजोऽशुभां तस्ते चन्द्रे भौमगृहगस्तिदे मृत्युशाच मृगे चंद्रे करके मन्दे जलोदराद स्त्रियामिन्दौ रक्तसौधात्सौरे वाज्वग्निपादजः पुत्रधर्मस्थस्योर्वं द्यात् पापयो सददृष्टयोः सदा संशयनिगडैर्दृकैर्मृत्यौ दु बन्धनैः स्त्रियां सपापेब्जेद्यूने सिधेमेषेरवौ तनौ मरणं स्त्रीकृते गेहे ह्यधतुर्ये कुजेरवौ यमे क्षें गत्रिकोणस्तेः क्षीणचन्द्रांशुभैः सकृत तुल्येऽर्के के कुजे क्षीणचन्द्रदृष्टे सम समिद्धदः रं ध्रकां गजलैः क्षीणें द्वारार्किरविसंयुतैः लकुटेनाथते तैरेव काङ्कां गदनयस्तिदैः धूमानि बन्धनैकार्य कुदनैर्मरणं भवेद बन्ध्वस्तकस्तैर्भौमार्कर्मदै शाशस्त्राग्निं राजभिः सौर्यं द्वारैः स्वाम्बुरवस्तैः क्षदक्रेम्यङ्गयादः स्वेर्के तुर्ये कुजयानपादादध कुजे स्तगे यन्द्रोऽसी नुतनः क्षीणचन्द्रयुक्ते मृतिर्भवेद् भौमार्किशीतकिरणैर्जुगाजशनिभस्थितेः क्षीणेन्द्वर्ककुजैकास्ताम्बुष्टैर्वारकरे मृदिः बल्यारदृष्टे क्षीणेन्दौ मन्दे मन्दे निधं न संस्थिते गुह्यरुकृमि शास्त्राग्निदारुजो मृत्युरङ्गिराः सौरेऽर्केस्ते मृदो मन्दे क्षीणें दौ भुव्यसंयुधे लग्नध्यायास्तपहकार्कभौमचन्द्रनिशाकरः शैलशृङ्गस्वरूपा स्वरु शैलशृङ्गस्वरुग्रपादौनुर्निधनं भवेद दृक्कों तरे तुर्धा विंशस्तत्पदिर्मृत्युपोऽपि वा स्वगुणैर्निधनं कुर्याद् बलवाण्यो द्वयोर्भवेद् लग्नां शेष्य सदृक्स्थाने मृत्युर्योगे क्षणादिभिः मोदोऽन्तेऽनुदिधांशस्य तुल्योद्विघ्नस्वपेक्षिते hmm. सुभेक्षिते दुत्रिगुणकल्प्य मन्यत्स्वबुद्धिदः वाह्न्यं बबुभस्म सक्लेद सोषव्यालैर्मृदिष्टितैः बिन्दुतश्चिन्तनीयश्च यथोक्ता मत्युरङ्गिनः गुरुशशाङ्गशुक्रौ च सूर्यभौमौ यमें द्विजौ देवपित्रतिरक्ोधनारकान् कुर्यरष्टमे श्रव्येन्दुबलवस्रंश नाथासमाधमाग तुङ्गगस्सन्दनूकेनु गतिषड्रन्ध्रधृक्कपः न्यूनस्तिदो गुरुर्वापि जिपुकेन्द्रविनाशगः स्वोचस्तोऽङ्गे व्यये सौम्यभागे मोक्षो बलान्यदः आधाने जन्माज्ञाने दुवृक्षदां लग्नतो वदेद् पूर्वापरार्थैर्लग्नस्य सौम्ये वाच्यपने जनिः लग्नत्रिकोणे वीज्य त्र्यंशैर् विकल्पा विकल्पावयवाः समाहां ग्रीष्मो गेर्के परैरम्यापनदां पृदुरर्कभाद चन्द्रज्ञजीवा वृत्यस्या शुक्रारार्किभिरन्यधा दृकैराद्यै पूर्वमा सस्तिस्तत्रानुपदः विलोमजन्मभागैश्च वेला रात्रिद्युत्संज्ञगे त्रिकोणोत्तमवार्थं तिलग्नं वा लभनाभने यावदूनो विधुर्लग्नात्स्तावच्चन्द्राच्च जन्मभे गोहरीयुक्म वसुभे क्रियजुगे मृगाङ्गने दशाष्टसप्तविषये गुण्याशेषाकसंख्यया जीवभौमकविज्ञास्युराघवाद्या ह्यरेज्ञवद भानां नित्यो विधिक् खेडवशाद्धर्गणास्तथा सप्तर्घ्नं भहृदं शेषवृक्षं नवधनर्नदः विघ्ने समर्तुमासस्युपक्षे पक्षतिथ्यौ गजाहदे सप्तघ्नं होनिषार्क्षाणि शुक्नेङ्गां चेष्टहोरिका पुमान् परशु धिकृष्णो रक्तदृग्रक्षितुं क्षमः दृष्टर्तिकपदाश्वास्या रक्तवस्त्रा खडाकृतिः कपिलो ह्यन्ददृक्रूरो रक्त वस्त्रः क्षत्रभ्रदः शार्तो दुग्धबडो लूनकुञ्चिदमूर्धजः मलिनक्षुपरो जास्यो दक्षकृष्यादिकर्मणि द्विपकायाः सरभयात् पिम्पगलो व्याकुलान्तरः शौजिकी रूपिणी साध्वी ह्यप्र जोच्छ्रुतपाणिका उद्याने कवजी धन्वी क्रीडे चर्गरुडाननः नृत्या देवेद्वरुणवद् बहुरत्नो धनुर्धरः द्विभास्य कण्ठक्रोढास्य कनने शरमाहिकः आदव्यशाखां पालाशी रौदिमूर्था हि कर्कश चिपीडास्यो हि संविधो नौस्तर् रात्र्यार्थं व्रजञ्जले स्वानरो गृध्रं गृहीत्वा रौदी शाल्मलौ धन्वी कृष्णाजिनी सिंह वाश्वोन्नदमाधुरः फलामिषघ्नकूर्जिना फलाश्य कपि चेष्टिदः पुष्प पूर्णचडाकन्या विद्येल्ला मलिनां धन्वी व्ययापकृच्छामो लिपिकृमशोनरः गौरी गा। धौदां शुकात्सुचा कुम्भदृष्टा सुरालये मानोन्मान् पापसो तौलीभाण्डमुत्पविचिन्तकः क्षुतृङ्ग्युदो नरकुम्भी गृध्नस्य स्त्री सुदोभगः धन्वी कितर चेष्टस्तु हैम वर्मा मृगानुगः सिन्धे कूजं व्रजं स्त्री व्रजं तिस्त्रीणानासर्पसि दहि सौख्यस्पृहाह्यावृत्ताङ्गि भर्त्रर्थकच्छपाकृतिः कूर्मास्यो मलये सिंहश्व क्रोण्डमृगभीषतः पास्य स्वकायो धानुष्को रक्षं स्तापस चम्पकाभासने मध्या सिन्धुरत्र विवर्धिनी को मास्सने चम्पकाभो दण्डिकौशेयकनिनी परमोधो गृध्रमुखस्नेहमध्याशनस्पृहः दग्धानस्थालोहधरा सभूषभाञ्जकचरा भाण्डीरोमश्च वा श्याम किरीडी भलयन्द्रधृक नौ स्तो धोस्संविभूषां मृथ नानारत्नकरोञ्चिदः नौस्तब्धे ना कुलमायां जी स चम्पकानना गर्ते सर्पावृतो नग्नो रुद्राम् रुद्रांश्चौरा नलार्दितः एतादृशां ह्रियां शास्तु षत्रिंशदुदीधाक्रमाद् ये दत्सङ्क्षेपदप्रोक्तं जातकं निबोध निबोधसहितास्कन्धं लोककृत्युपयोगिनम् इति श्रीनारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने जातकनिरूपणन्नाम पञ्चपञ्चाशत्तमोऽध्यायः ओम्